स्वर्गाय वा यश्च लोकाय जीवतेरग्न्यस्तैरङ्गन्मारोहेत् सुवर्गालोकादिनमानो हि येदपृथिवेमाक्रमिणं प्राणमामाहासेदन्तरिक्षमाक्रमिणं प्रजामामासेद्यमाक्रमिणुं सुवरगन्मेत्याहैषवाग्नेरन्वारोहस्तेरेवणन्वारोहति सुवर्गस्य लोकस्य समष्टे यत्पक्ष संविधामिनयात् तनि यागं तयज्ञ कृतमुपेया पापि यस्य स्यात्मनः समेव यज्ञ कृतमुपेजयास्यात्मनः पापीयसे प्रजा भवति साहस्रं जिन्वेद प्रथमं हस्रं वा अन्तरिक्षमन्तरिक्षमेवाभिजयति तृषाहस्रञ्जिन् वेद तेऽजिन् बालत्रहस्रो वासौ लोकमेव लोकमभिजयति जानुलग्नञ्जिन् वेदप्रथमं जिन् बालो गायत्रियैवलोकमव्यालो हरिनाभिदग्नञ्जिन् लोकमभ्यारोहति नाग्निं चित्वा रामापेया त्रयो नौरेतो धास्यामे स्त्रियमुपेया नृचित्वा काञ्चनोपेयाद्रेतोन्निदत्ते यदाग्निं का चिनुतेदुपेयाद्रेदसाव्ययाथो खल्वारप्रशस्यपेयास्त्रिया मददादिनस्करे तस्माद्वैतौ स्कन्दायत्रे निवारेता पुत्रः पौत्र यद्वैरे तस्थितास्य पश्यन्ति माम् पश्यन्ति वाचं वदन् देवन्तरिक्षन् द्वितीया प्राणो वा अन्तरिक्षं रे कं पश्यन्ति न प्राणमसौ तृतीया च क्षर्वासौ तस्मात् पश्यन्त्यमो पश्यन्ति न प्राणानामिष्टो यज्ञोषिराधेनावसुभ्यस्तस्य च इष्टस्य वेदस्य द्रविने शस्त्रे एवेतेन दुहे च्छिद्रापदाच्छिद्राः पदानुदक्षः स्वामाविश्वयम् नेता बृहस्पतिवृक्षापदानि चैत्या हैतद्वाग्ने ऋच्छन्ते नैव एषाय च मुखाया प्रियते यथस्तादगे गर्भागेव तदा सन्ते साधयति गर्भाना धृत्या प्रपादाय सो समेव निश्चिक्यम् यच्छिख्या दुःखाद्योगर्भन्य्या षडुद्यामकं त्यं भवति लोडा विहितो विपुर्ण आत्मादश्च चत्वार्यङ्गान्यात्मन्येवनं विहन्ते प्रजापदुर्वायेन लग्निस्तस्योखादो लोखरञ्चस्तनौताभस्य प्रजा उपजयवन्ते दुःखाञ्चो लोखरञ्चपदधाुल्लोके सरोवायेनस्तस्य त्रयधा विहिता जापत्या वैष्णवी वैश्वकर्मणिवास्य प्राजापत्याय दुःखं विभक्ति प्राजापत्या हे पददुपसत्यै यत्समिधा तथा वैष्णवा वै वनस्पतया वैष्णवेपदुपसत्ये गष्टगाभिरभ्युञ्चिनोधीयं वै विश्वकर्मा वैश्वकर्मणिपदुपसत्यै तस्मादाहुस्तृपदग्निरचितं ेदगिनस्यान्यश्च निजान्यत्तम् दक्षिणाभर्माराधये लग्निमश्च वृन्देतया स्याग्निम् च निगान्तम् दक्षिणाभेनाधये लग्निमेव स्मृणोति प्रजापतिरग्निमजुनतत्तुभिस्तवत्सरं वसन्ते दैवास्य भो पार्थमजुनदग्रीष्मेण दक्षिणं पक्षं वर्षाभिः पुच्छं सर्वोत्तरं पक्षगुं हेमन्तेण मध्यं ब्रह्मणावास्य तत्क्षत्रेण दक्षिणं पक्षं पदुभ्यःपुच्छं विषोत्परं पक्षमाशगामध्य एवं विद्वानग्निवेणो एतदेव पुरेण मन्तरे क्षं यावयागं छिपुरेण वसौ कृते यानक्षत्रादिपुरेश यज्ञश्चतुर्थे दक्षिणापुरे शङ्मानः पञ्चमे प्रजापुरे येत यज्ञं दक्षिणामात्मानं प्रजामन्तरिया तस्मात् पञ्चसितेकश्चेतव्य ृणोदयत्यश्चितयत्रै पञ्च चित्तया भवन्ति पान्तः पुरुषात्मानमेव स्पृणोति पञ्च चित्तया भवन्ति पञ्चभिः पुरुषैरभ्यो हतिलसम्भव्यन्ते दशाक्षरो वै पुरुषो या वादेव पुरुषस्तग्रस्पृणोत्यक्षरा विराज्याज्य संवत्सरा वे षष्ठे पुरेषच्चिदयो भवन्ति षट्पुरेशा द्वादश सम्पद्यन्ते द्वादश मासात्सरः संवत्सर एव प्रयतिष्ठति ूम्रलोहितः कर्कम्भुलोहितश्च बभ्रवृणवभृशुकवभृश्चेतभोद्रा श्वेतश्चेताक्ष श्वेतदेवस्थेभृतदेवत्या कृष्णावशावारुण्यस्तिष्ठेतावशा शौर्यो मयी रामार्गस्पत्या धूम्रलास्तोपराः वृष्ट्यस्तिरस्ते न वृष्टे वृष्ट्यस्ते मार्वाः फलोर्लोहितोर्नेव लक्षे ताः सारस्वत्यः पृषदे स्थोलपषते क्षुद्रपृषते ता वैश्व वशाष्ण्यस्तिस्रोरोहिणे वशा मैन्द्रिय ऐन्द्रावास्पत्या अर्जुननामा स्तोपराः ुरन्यदश्च देवाहुः समन्तरि देवाहुस्तये इन्द्रवायवाश्चिरन्ध्रन्यदश्च निरञ्जस्तमन्तरिरंशस्ते मे रामरुणा शुद्धवानः सर्वशुद्धवालो मणिवालस्ताश्विनः इष्टश्च देव्यस्तिस्तस्ये परमे माष्णा श्यामलनामास्तो पराः उन्नतरज भो वामनस्तयेन्द्रावरुणा श्रीच्छ्रिकृष्णश्रीरिभदत्तयेन्द्रावार्यत्या श्रीशिवाच्छित्योष्टितिध्वस्तयेन्द्रा वैष्टवा स्तिस्रिद्ध्वा वशा वैककर्मण्यस्तिस्रो धात्र्यकृषोदरा ऐन्द्राष्णाश्चेतरलामास्तोपराः कर्णाश्रयो यावाः सौम्यास्त्रयश्रुलिङ्ग्याग्रय यविष्ठाय त्रयो न गुणास्तिस्रो नोव्यस्तावसो नास्तिस्रोरुणानित्योक्यस्ता रुद्राणां सोमयेन्द्राभ्रणलामास्तो मराः शुण्ठाश्रया वेष्णवा अधीरोधकन्हास्त्रय वैष्णवक्रमाय न सुजिरत्रय वैष्णवौरुगायाय पञ्जावेस्तिसरादित्यानावत्सास्तिस्राङ्गिरसामये लावेष्णवा गौरललामास्तोपराः इन्द्राय राज्ञे त्रयश्रीपृष्ठा इन्द्रायाधिराजाय त्रयः श्री गकुर इन्द्रायश्वराय त्रयः श्रीभदरस्तिसस्तुर्योक्यसाध्याना पष्टोक्यो विश्वेदान् देवानामाज्ञेन्द्राकृष्णननामास्तोपरा अतिथ्ये त्रयो लोहितयिता इन्द्राण्ये त्रियः कृष्णैता पुह्वैरे प्रयो ऋणैतास्ति श्रोधे नवो नाकाले त्रयो नड्वा अश्विनी बाल्या वैष्णवास्तोपराः सौम्यास्त्रयः पिशङ्गाः सोमाजराज्ञे त्रियः सारङ्गा पार्थन्या श्रो या मनुरा इन्द्रान्ये तिस्रो मेष्ट्यादित्या वा पृथिव्या वा लङ्गा सोपराः रुणास्त्रयः कृष्णलला भावरुणाय राज्ञे त्रियरोहितलला भावरुणाय श्रतले त्रिय वरुणलामा शिल्पा श्रिया वैश्वदेवास्त्रय कृष्णय सर्वदेवत्या ऐन्द्रासूराश्चेतललामास्तोपराः <saudhanaya> सोमाय स्वराज्ञे नो गाः वग्दाहाभ्यामो जोद भ्यामुष्टाराविन्द्राज्ञिभ्याम् वनदाद्भ्यागुंसेरवाहा भवेद्वे धेनो भौमे दिग्भ्यो मणवेद्वे धेनो भौमे वैराजे पुरुषे द्वे धेनो भौमे भागव आरोहणवाहा वनद्वाहौ वारुणे कृष्णे वश अराज्ञौ एकादशः प्रातर्गव्याः पशवालभ्यन्ते शकलः कल्माणः क्रिकिदेवर्विधेकयस्ते त्वाष्टा सौरेर्णव श्वेतावशा नो वन्द्या भवन्त्या ज्ञेयैश्वस्ते पिशङ्गास्त्रयो वासन्ताः सारङ्गास्त्रयो ग्रयेष्मा पिणन्तस्त्रयो वार्षिका कृष्णयस्त्रयः शारदा कृष्णसक्षास्त्रयो हैमन्दिका अवरिक्तास्त्रयश्रैशिरा संवत्सरा गणिवक्षसः ओ भो वा यथा देवतञ्च कृता देवताभ्यावृश्च देवावीयान् भवति या यथा देवदन्न देवताभ्याविश्च देवसीयान् भवत्याग्नेया प्रथमाभिष्टुभा द्वितीयां जगत्या तृतीयामृष्टुभा चतुर्थे पञ्चापञ्चमीं यथा देवतमेवाग्निञ्च लते न देवता शुपजिना पशुभि प्रजापतये प्रथि प्रोच्याग्निवाष्माभिदस्तिष्ठेनाङ्कृष्टमुत्तरदश्वेतो दक्षिणस्तावालभ्येष्टका उपदध्यादेतद्वै प्रजापते रूपं प्राजापत्योऽश्व साक्षादेव प्रजा प्रजापतये प्रथिप्रोचाग्नि क्षत्ते तद्वा अन्नरूपेतो रात्रि कृष्णैतदन्नारूपलेशमिष्टकामुपधास्यमश्वमभिवृधे कुलेशमुपधास्यङ्कृष्णमहोरात्राव्यामेन जनते हिरण्यपात्रं मधर्णन्ददातिमधव्यसानीति सौर्या चित्रमत्यावेक्षते चित्रमेव ्रापयत्यसौमादित्य प्रजापयत्राजापत्यश्वस्तमेव साक्षात् धनोति स्वामग्रेवेपि गानम् पुणर्यमानम् जनयन् नृपागा अस्थोरिणा काश्चित्यादि प्रजननाय तस्मात् योधे योधरिणवः संवत्सरस्य प्रतिमायान् कृपासते प्रजागुम् सुरीरा कृत्वानुमानव्यश्नवदे जापत्यामेतामुपधातीयम् वावेयैकाष्टकाय देवैकाष्टकाजामन्नम् क्रियते तदेवै प्रजावरुन्धय प्रजापदे कामधुघात एव यजमानामस्मिन् लोके गृन्दुभयेन देवा ज्योतिषोद्वामुदायनयेन रुद्राः मभिमानमानसेनषोदायन्यत्यक्षकम् इष्टकायधेवानस्पत्या कश्च समष्टे शतायुधाय सर्वे सतोऽभिमादिशाहे शतैयानः शरतो अजेतादिन्द्रो ने तु विश्वा ये दर्तारः पदयो अंतरा वा पृथिवी वियन्ति तेषाय अज्ञानि मजेति मावः तस्मै नो देवाः परिधत्तेः सर्वेष्मो हे मन्तपुतनोपतन्तः शरद्वरितास्तु वितन्नो अस्तु ते दानाम् राम निवादने रामजये स्याम इदु वत्सराय परिवत्सराय संवत्सराय कृतामः यज्ञानाम् जोगरे दाहदास्याम भद्रान्नश्रेयः समनेष्टदे भास्पयावशेषत्वा योः पितु आविषस्कसन्तो कार्यतनुवेस्यो नः ज्ञानेरेता दाव उपदथा मे देवतापराजितास्तादेव प्रविशति नैव जीयते ब्रह्मवादिना वदन्ते तद्धमासा मासार्दवः संवत्सर्वोधे दे पदन्त्यस्मादन्याभ्यो देवताभ्याग्रेण दे निरूपेण दे दे देवताभ्य दे देवताः निरूपेता दे ्रेणादिरदेव भद्रान्नश्रेणः समनेष्टदेवादित्या भुदानस्यापराभावाय इन्द्रवज्वादिमार्थघ्नस्तनोपानः प्रतिस्पशः यो नः पुरस्ताद्रक्षिणतः पश्चादत्तरतो भागदभिदासत्तेतकम् सोऽश्मानमृच्छत न्तभ्य आपासन्तताम् देवाविष्पाजवज्रेण तापानुदन्त यद्भज्रेरुपदधादेष्पादेव तद्भज्रेण जयमानोऽभ्राजपनुदते दिक्षोपदधादेव पुरादेवैतास्तनोपाने पर्यो हदेज्ञा विष्णो रजोषेमा वद्धन्तु वाङ्गिरः वाज्यभिरागतम् ब्रह्मवादिना वदन्ति युन्न देवतागेजुः प्रत्य किण्डेवत्यावसार्था ने जर्वदस्तस्यैलाधाराहस्तस्यैलाधारा वैष्णव्यत्यावसार समर्धयत्यतो एता देवाहुदिवाय हृदयेन्दरादयत्कामयेनवावृन्दे रुद्रो माय दयज्ञस्तस्यै नवो घोरान्या शिवान्यायश्च दरुद्रीयं ज्यो दैवास्य घोरातनोस्तान्तेन शमयदयद्वसार्धाराञ्जो देवास्य शिवातमोस्तान्तेन प्रेणादयो देवसार्धाराय प्रतिष्ठा मेलप्रत्ययपतिष्ठति यराज्यमुच्छिष्ट्य जलस्य ब्रह्मो धनम् पजेरा मणाश्चकारास्मै च वाग्निर्वेश्वानयणयजावाज्ञे प्रियागमो यद्वैश्वानप्रियायामेवनोर्द्यात्ताभिय रमामुष्णल्लोके बृन्दुहे वेदाहृतैश्वकर्मणि ऐनन्त्यज्ञानम् भ्रादुर्व्यो न देवता एवावरुन्धे ज्ञेतपदेति पञ्चाजहोति पञ्चाहुत्यायज्ञमुखमारभते सप्तदे अग्नेतविधः सप्तजेत्त्वावरुन्धे भागधेयमिच्छमानस्तन्द्वारेदर्भागेयम् प्रायच्छन् एतद्वा अग्नेरग्निहोत्रवेदलेखलुवारेकजातो यदि विदर्वस्थितो जातादेव ब्रह्मवादिना वदन्ति यदे चार्गवत्यश्चीयते दत्वा एवम् विद्वानग्नि साक्षादेवदेव अयम् मम श्लोक अस्तु भरजाम् पश्यन्तमुपधेदग्रे तपो देक्षा विजयस्तु वर्मिनः देवा विधाता ततः क्षत्रम् परमोदश्च जातम् तदस्मै देवाभितन्नवन्तरमेतस्मै राष्ट्रमभिो अस्तु सर्वे राष्ट्रभृतयेतावपदधाद्यतावाग्ने स्थितिराष्ट्रभृत्तवाग्निन्द्राष्ट्रम् दधाति राष्ट्रमेव भवति नास्माद्राष्ट्रम् भगुंसते यथा मे पुत्रो जातो म्रिय एवं वारेण म्रियते यस्यानिरुक्ष उद्वाय श्रियञ्जन्मन्थ्यम् कुर्यात् पृच्छा भ्रातरुमस्नेदनेन स एव पुनः पदे यस्मादेवेन यो नेनास्मैभ्रातरिजनयति तमो मारे नार्यस्याज्ञरुक्षमुद्वायति मृत्युस्तमः कृष्णम् वाचकृष्णाधेन दक्षिणा तम सैव तमो वर्त्यव हिरण्यन्दताो धर्मैहिरन्यञ्जोतिषैवतमोपहते चो ते जो वैभिरन्यन्ते च देवात्मं धत्ते सुवर्णघर्म स्वाहा सुवर्णार्कस्वाहा सुवर्णशुक्त स्वाहा सुवर्णज्यो यस्वाहा सुवर्णरो यस्वाहार्को वा यथावादित्योऽधो येताहुये मेधीयस्तेदराज्ञ आपोपां प्रजापतिप्रथमान् चितिमपश्यत्तामुपाधत्ततमभवत्तं विश्वकर्मा प्रभेदुभक्त्वा यानि दिनेहलोको चेत्यब्रवे सरेतां विधीयाञ्चितिमपश्यत्तामुपाधत्ततदन्तरिक्षमभवत्सरेत्यः प्रजापतिमब्रभेदुभक्त्वा यानि दिनेहलोको क्त्येत्यब्रभेत् स विश्वकर्मानमब्रभेद मत्वा जानीति के न मोपैष्यसी ऋतिश्चाभिरित्य ब्रभे तं दिश्याभिरुपये तावुपाधत्ततादिशोभवान् स परमेष्ठी प्रजादिमब्रभेद मत्वा जानीति देहलोकोक्त्येत्यब्रभे स च यज्ञञ्च ्रभेदुपभामाया नेतिनेहलोकोऽस्तेत्यब्रोधागुं सवेताञ्च्रीयाञ्चितिमपश्यक्तामुपाधत्तसा भित्य प्रजापतिमप्रभेदुपक्ता यानेतिनेहलोको स्थेत्यब्रवेद विश्वकर्माणैत यज्ञञ्च प्रभेदुपभामायानेतु स्थेत्यब्रोधातुं स परमेष्ठिनमप्रभेदुभक्त्वा याने केन ोपैष्यतीति लोकम् प्रणयेत्यब्रवेत्तम् प्रणयोपयेत्तस्मादजाताम् नीलोकम् प्रणयातयास्य वा जित्यस्तानुषयो ब्रुवन्नुपमायामेतिकेन नष्यथेति भोम् नेत्य ब्रुवन्तान्वाभ्याञ्चिदेवभ्यामुपायान् सपञ्चदि कस्तमपञ्चदेम् विद्वानग्निम् च नुते भूयानेव भवत्य भीमान् लोकान् चेति दे विदुरेनम् देवा अथो एतासामेव देवतानागुम् सायुज्यम् यदग्निचित्पक्षिणा स्त्रीयामे माज्ञादात्यवाक्षे सम्वत्सरं व्रतञ्च सम्वत्सरं ह्यतन्नाति पशुर्वाय रनस्ति खलु वैतम् पशुर्ययेहम् पुरस्ता प्रत्यञ्जनोपचरहितस्मात् पश्चात् प्रागुपचर्य आत्मा हिकम् जायैते ज्योते जो मे यच्छ पृथिवे यच्छ पृथिव्येवायज्य र्मे यच्छान्दरक्षयच्छान्दान्माहिदिवं यच्छ दिवो माहेत्याहेताभिर्वायि मे लोका विधृताय देता उपदधा एताधत्यै स्वयमादर्णा उपधार हिरण्ये प्रका उपदधायि मे मे लोका स्वयमादर्णा ज्योतिर्हिरण्यं यत् स्वयमादर्णा उपधार हिरण्ये प्रका तथा गीमा नैवेताभिर्लोकान् चो यष्मनः कुरुते सोजेताभिर्देवास्मादिने लोकाः प्रभान्ति यास्ते अग्नेतवो जो जिवमाधन्वन्दिरस्पृभिः ताभिः सर्वाभिर्जय जनायनस्कृतिः यावो देवासो गे ऋचो गोष्वस्वेभिया ऋतः ेताभिः सर्वाभिरुदन्नो धत्त बृहस्पदे ऋतन्नो धे ब्राह्मणेषु वृक्षम् प्राजसुनस्कृतिः ऋतम् विश्वेषु श्रोद्रेषु मयिधेहि कृतागतम् ज्ञम् चे जज्ञानस्य यजेन्द्रियम् गच्छत्यज्ञम् वा जगमी जानम् वा यदेतात्मन्येवयसैन्द्रियम् धत्तयेश्वरो वा यदामजतत्वायाभिब्रह्मणामन्दवानगिरिवारुण्यत्याजुभुयाक्षान्तिरेवेदाग्नेर्गुप्तिरात्मनो हविष्कृतो वा योजन ेहविस्कन्दत्येवं वा एष स्कन्दित्वा स्त्रियमुपैति मेत्रावरुण्यामिक्षया वरुणतामेवोपै स्कन्दाेरस्मे कल्पमानवेति प्रत्येव दक्षिणः पक्ष वर्षा पुच्छकम् शरदुत्तर ेवमानवेप्रत्येवम् विद्वानग्यम् चे ज्येष्ठमेव गच्छति यदा कोरात्सपदस्त्रानसो वा सम्प्रतम् चक्षुषो वार्गस्पजालेन ्योमम् देवा स्यात् आगच्छात् देवयाने नृष्टा भोक्तेरस्मै संरक्ष्यवभ्रमनुसंप्रजादाग्नेपथो देवयानान् कृस्मिन् सहस्थे अध्युत्तरस्मिन् विश्वे देहाविदमानश्च सीतता यजन्न भगवद्देवेषु गन्तवे यदृष्टै यत्परादानै यद्दत्तय्या च दक्षिणा तथग्निर्वै स्वकर्मणस्तुेषु न सहस्रम् वहसि येनाग्ने सर्ववेदम् यजम् न भगवद्देवेणुगन्तवे तेनै मै यजन् महासुमर्देवे जुगन्तवेगतः पचामधोर्धाराज्ञानेन यजन् न महासुमर्देवे युगन्तवे यत्र धारा अनपेतामधोर्धनश्च जयाः वैश्वगन्मनः सुमद्देवेणोदय स्ते अग्ने समितोया यथावया जग्मारादवे दोयो अर्चिः वेदे अग्ने मेदयोजयन्त हस्तेभि आत्मानम् जनैः प्रजानन् यज्ञा वा हैलयरज्ञ किम् वा हैरस्य क्रियते किम्बायद्वा अध्वर्यरग्न्येश्चिन्मन्नन्तरेत्यात्मनो वैतदन्तरे दयास्तेरग्नेयाधानेज्ञा हैषा वा अग्ने स्पृञ्चतिरग्निरेपदग्निम् च न दिनाभर्यरात्मनान्तरे दिलस्राधाः प्रजलन् प्रज्ञमन्नम् नैलप्रजानन् घृतम् विन्वन्न जनकम् सुमेहम् ब्रह्म समेप्याहुजीनाम् स्वर्गाय माय लोकायोपधीयते यत् कोर्मश्च तस्वाया प्रजनन्वग्न इत्याभिषय स्तश्च प्रजाः पदपश्चन्दागम् च रूपकम् सर्वाण्यो याद्योणैव प्रजाम् पशो्छन्दायस्य वरुन्ध्यथ प्रजाभ्यदेवणम् पशोभ्यश्चन्दाभ्यावरुभ्यज वरेणाम्यग्ने अग्निगौ रायस्तोषायुः प्रजास्वायसमीर्व्याय य प्रजाम् वयवत्यो तथा वेष्टास्यामनुवासुवेः यो नो अग्नः पितरो हृत्स्वन्दरमत्यो मत्यागम् आविवेश समात्मन् परिगृह्णेमहे वयम् वासो अस्माकम् अवहाय परागाय र्युलात्मन्नग्निमगे स्वाग्निस्तमपेयमाना वक्रामु पदवस्यर्मय ग्रन्थाम्यग्ने अन्यविद्याहात्मन्येव स्वग्निन्दाधारणास्मा पदमापक्रामन्त्यब्रह्मवादिना वदन्ति यन्मृत्या पश्चाग्ने ष्टाग्निश्चीयतभि सर्वा देवता देवताभिरेवैकं सकं सृजलन्मदापदं सकस्मादग्निरुयोनिरु स्वानोयं व्रतारण्येष्टका उपधारिज्यो न्योतिरेवास्मिन् धत्ते वाग्निकं सर्वतोमुखं जिमुदे सर्वासप्रजासन्नभत्य सर्वादिसौभिजयजगायत्रे पुनश्चादुपधारिष्टुभं दक्षिणतो जगते पश्चात् सर्वतोमुखस्तैर्य एवम् विद्वायस्तु मृपे प्रजापतिरज्ञमशिरसोऽस्मात् स्रष्टः प्रान्स्मा अश्वं प्रत्या सत्सदक्षिणावत्तरतस्मै वृष्टिं प्रत्या सत्सप्रत्यङ्गावत्तरस्मा ऋषभं वृत्ता स्रबुदङ्गावत्तर तस्मै भक्तं प्रत्यास्मै पुरुषं प्रत्या सद्यपुशान्यपदधानि सर्वदेवै न प्राणभृतश्चेरुपकायत्पुषेरुषेरुताभिरेव यजमानामुष्मल्लोके प्राणित्य सोताभिदेवास्पादि लोकाप्रभाप्योपदथाजिमेपशोर्वा एतय रं पशवनेन खलु वा अग्निलयत्पजुषेरुमकेधकनीयोस्यान्नग्निस्यादि सन्तान्तस्य पदुषेरु ुपदध्या कनीलदेवास्यान्नम् भवदयङ्कामनेत समावदस्यान्यज्ञस्यादिनिमध्यरस्तस्योपदध्या समावदेवास्यान्नम् भवदयङ्कामनेत भोज स्यान्नस्यादित्यम् पेदस्य भ्यतोपदध्यादन्तवदेवा श्वान्नवरन्धे भोज्यान्नम् भवते एकान्तदष्टाभ्राम् मण्डोकाण्डम् खादेन जगुम् सूदेन मुलम् वर्षे शर्कराभिरवकामवकाभिः शर्करामुत्सादेन जक्वामवक्रन्देन तानुपुनस्पतीवाग्रेण ुभिर्मयामधरेणेणान्तरेणा नोकाशम् प्रकाशेण वाक्यग्रस्तनयत्रुर्निर्बाधेन दोर्ग्याग्नेत्रुर्भ्याम् यद्यदोकनानकाभ्यामसनिम् मस्तिष्केन बलम् वाज्ञभिः शपेरक्षलाभिरक्षमिञ्जलान्सा मकुष्ठियाभिरुद्धम्यङ्गाभिरञ्जालभ्याम् वेद्यम् गुहाभ्याम् भयम् प्रजालाभ्याम् भोमपृक्षाभ्यामश्विनावगुंसाभ्यामदलिगुंसेर्ष्णा भ्या निर्दम् निर्जात्मकेन सेर्ष्णा भिर्युगमानजेन चित्तम् वन्याभिः सङ्क्रोशान् प्राणे प्रकाशेन पदम् पराकाशेनान्तराम् वशकान्तेन्द्रज्ञस्वपसामहेन हस्पदिकुंशकुनिसाधेन हरमृष्टिहाभिर् वृत्रावरुणौ श्रवणेभ्यामिन्द्राग्नेशखण्डाभ्यामिन्द्रा बृहस्पति गोरुभ्यामिन्द्राविष्णो अष्ठेवभ्या गुण्वितारम् पुच्छेन गन् सर्वाञ्चेपेना स्वरसौ मुष्टाभ्याम् भवान् वागिना पवित्रम् पौत्राभ्यामाक्रमणग्रस्थोराभ्याम् परिक्रमणम् पुष्टाभ्याम् इन्द्रश्चक्रोडो नित्तेपायश्च दिशान् चक्रवो जीवोदान् हृदयो वशाभ्यामन्तरिक्षम् पुरिगतानुभवर्येणेन्द्राणीम् धावन्मेधान् प्रोम् नागिरेम् राशुः समुद्रमुदरेण वैश्वानरम्भस्मना ष्टावष्टन्धापान् गुदाभिरतोन् पृष्ठे भूनाम् रुद्राणाम् द्वितीयादित्या पञ्चमे विश्वे दान् देवानागुम् षष्ठी ओवाभिर्निर् मस्तभिरेन्द्राज्ञ स्वपसामहेन रुद्रस्य विजनस्कन्धो होरा द्वितीया तृतीयो माताञ्च दुच्छरसूनाम् पञ्चम संवत्सरस्य षष्ठः आनन्दम् नन्द सुराकामम् प्रत्याभाभ्याम् भयगोह्य देवभ्याम् प्रसिदम् प्रसादाभ्यागम्सो व्यातन्त्र्यावधोदशाभ्याम् दृष्ट्यो रूपेण निमृत्यमरूपेण योषेण घृतगौ रजेण स्याम्बदकादोषेकाभित्रातु नमस्वभिप्रष्पादिवगौ रूपेण नक्षत्राणि प्रजरोपेण प्रजवेच्छर्म नाच्छब्दोपाकृता गस्पाः लब्धा गस्वाः हुता यस्पाः अर्गे पक्षदस्पत्यै जिपक्षदस्तोपस्तृतीयाम् पञ्चमीनम् वस्वरस्य लष्ठे मरुदागम् सप्तमे बृहस्पतेरष्टमे मित्रश्च नवमे वरुणश्चेन्द्रस्यैकादशे विश्वेणाम् देवानाम् द्वादशे या वा पार्श्वयमस्य वा दोरः क्षदस्तरस्पतोपक्षनिश्चन्द्रमधस्तृतीया नक्षत्राणान्तरच्छेदमिदः पञ्चमे वित्रस्य कक्षे सर्तानामम् सप्तम्यम् न अष्टमे त्वम् नवमे धावसवेन्द्रान्यादेकादश्रे चेद्वादये जावा अन्थावदावृग्भ्यागौ सन्तनिर्गस्नावण्डाभ्यागौ शुकान् पित्तेन हरिमाणे यज्ञाहलीरेष्णान् पापवादेन गोष्पाञ्छकभिश्वभर्ता नो बद्धेन शुनोभ्यसनेन सर्वान् लोहितगन्धेन वयागुम् जक्वगन्धेन पेलिका प्रसादेन क्रमेण त्यक्रमे द्वारे विश्वे देवैर यज्ञानः सनानय सुकृतस्य लोकन्दश्च ते वयग्रस्पथयावदेव यौस्ते पृष्ठम् पदवे रघस्तमात्मान्द्रक्षम् समुद्रो यो निःसौर्यस्ते चक्षुर्वादः प्राणश्चन्द्रमाश्रोत्रम् मासाश्चादमासाश्च बर्वाङ्गानिदम् अद्यः पशुराजे तेन यजन्तस चेतम् नागमज यद्यस्मिन्नभ्यस्तते लोकस्तञ्जे शस्य तावघ्रभाजः पशुराजे तेन यजन्तस गेतम् नागमज यद्यस्मिन् भाजस्तते लोकस्तस्मा स्वान्तरे श्याभिजति नापदिघ्रस्यादित्यः पशुराजे तेन यजन्तस गेतम् नागमज यद्यस्मिन्नादित्यस्तते लोकस्तञ्जे पञ्चमकाण्डः समाप्तः षष्ठकाण्डप्रारम्भः प्राचीन शङ्करो चिदेव मनुष्यादिशव्यभजन्त प्राचीन देवालक्षिणातरप्रदेशे मनुष्याय प्राचीनभगुं शङ्करो चिदेवन उपावत्तन्तरिहितो हि देवलोक मनुष्य लोकान्नास्मान् लोकाक्षेतव्यवेत्या भक्को हि तद्वेदय लोकेऽस्ति वा नृपयोजित्ये चेतस्पश्रुवपदे नृन्दते मृतावाले ध्यायत्यमेव भूत्वा मेधमुखे संज्ञेतस्वर्गम् लोकयन्ताप्सु देक्षा नावेदरन्नाप्सु स्नादिधाक्षादेव तपसि अवरुन्धय तीर्चेष्णादितीर्चेति देवान् दे दे दे प्रावेदयन्तीर्चेष्णादितीर्थमेव दे दे दे सुमानाना भवत्यपोष्णात्यन्तरत एव मेध्य भवति वासदादेक्षेति सौम्यं मे क्षौन्देवतया सोममेव देवतामुपै द्ीक्षते सोमस्य मनोरथि मो मे भारे त्या हस्त्वामेव देवतामुपैत्य स आदिशमेवैतामाशास्ते स्तोषाधानं पालयो बाधमानं पितृ दित्यानां प्राश्वेनां देवानामोदं नक्षत्राणामस्तद्वारेतत् सर्वदेवत्यै यद्वासो यद्वासदा देक्षयति सर्वाभिदेवैनं देवताभिर्देक्षयति बहिः प्राणामेवनुष्यस्तस्यासनं प्राणाश्वादि प्राण एव ले शावा णस्तेन सहमे समुपेति घृतम् देवानां निष्पक्वम् मनुष्याणां तद्वा सर्वदेवत्यै यन्न भ्यन्ते धर्वा देव देवता प्रेणादिप्रक्ष्युतो वा एषोदगतो देव लोकयो देक्षितो नवनीतम् तस्मान् नवनीतेनाभ्यन्ते नोमय्यजुभाव्यावृत्या इन्द्रो वृत्तमहन्तस्य कले निकापनापतञ्जल्यथाुदेवभ्या द्रव्यश्च वन्ते दे दक्षिणम् भो गवान् ि पूर्वं मनुष्या आञ्जते नावते नैव हि मनुष्या धावन्ते पञ्चकत्वाङ्के पञ्चाक्षपन्त्यपान्तज्ञोरिज्ञमेवावरन्धे परिमितमाङ्के परिमितकं हि मनुष्या आञ्जरे सदोनयाङ्के पदोनया हि मनुष्या आन्ध्रते ैव स्याच्छदोदयाञ्च मित्रत्वायेन्द्रावृत्तमहन्भ्यम् मृतता साभ्यतुं सदैव माधेत् ्राभक्ते दर्भा अभवनयद्दर्भवञ्जेले पवयधिया एव मेध्यानिज्ञयास्तदेवामस्ताभिरेवनं पवय िद्वाभ्यामयप्रहोरात्राभ्या देवैनं पवयरित्रेः पवयरित्रे मे लोका एभिरेव पञ्चभिः पवयति पञ्चाखलाः पान्तो यज्ञो यज्ञादेवेन पवयति षड्भिः पवयति षड्वातवेन पवयति पवयति सप्तछन्दागं षन्दोभिदेवेण पवयति नभिः पवयति नवमे पुरुष प्राणामेवैनं पवयत्येकविभूषत्या पवयति दहस्त्या अङ्कुरयोगशमत्या आत्मैकविभूषा यामाने आद्मी पुरुषस्त्व परिवर्तम् पवयति परिस्वा पुनात् परोवेदेवेन पवयति वा त्वनात्वित्याः वा देवैनम् पवयति देवस्ता समिता पुनात् विद्याः समित प्रसूत एवैनम् पवयति दश्यते पवित्रपदे